अथ त्रिचत्वारिंशः सर्गः सा तम् सम्प्रेक्ष्य कुसुमानि विचिन्वती हेम राजतवर्णाभ्याम् पार्शाभ्यामुपशोभितम् प्रहृष्टा चानवद्याङ्गे मृष्टहाटकवर्णिनी भर्तारमपि चक्रन्दलक्ष्मणम् चैव सायुधम् आहूयाहूय च पुनस्तम् मृगम् साधु वीक्षते आगच्छा गच्छ शीघ्रम् वै आर्यपुत्रसहानुजा तावाहूतौ न रव्याघ्रौ वै देह्या रामलक्ष्मणौ वीक्षमाणौ तु तम् तदा ददृशतुर्मृगम् शङ्कमानस्तु तम् लक्ष्मणो वाक्यमब्रवीत् तमेवैनमहम् मन्ये मारीचम् राक्षसम् मृगम् चरन्तो मृगया हृष्टाः पापेनोपाधिना वने अनेन निहता रामराजानः कामरूपिणा अस्य मायाविदो मायामृगरूपमिदम् कृतम् भानुमत्पुरुषव्याघ्रगन्धर्वपुरसन्निभम् मृगो ह्येवम्विधो रत्र विचित्रो नास्ति राघवा जगत्याम् जगती नाथ मायैषा हि न संशयः एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्यशुचि स्मिता उवाच सीता सम्भृष्टा छद्मना हृदचेतना आर्यपुत्राभिरामोऽसौ मनः आनयैनम् महाबाहो क्रीडार्थम् नो भविष्यति इहाश्रमपदेऽस्माकम् बहवः पुण्यदर्शना मृगाश्चरन्ति सहिताश्चमराः स्वमरास्तथा रक्षाः पृशतसङ्घाश्च वानराः किन्नरास्तथा विहरन्ति महाबाहोरूपः श्रेष्ठा महाबला न दृष्टः पूर्वम् मृगो मया दीप्त्या यथायम् मृगसप्तमः नानावर्णविचित्राङ्गो रत्नभूतो ममाग्रतः द्योतयन् वनमव्यग्रम् शोभदेशि सन्निभः अहोरूपमहो लक्ष्मीश्वरसम्पच्च शोभना मृगोद्भुतो विचित्राङ्गो हृदयम् हरतीव मे यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव आश्चर्यभूतम् भवति विस्मयम् जनयिष्यति समाप्तवनवासानाम् राज्यस्थानाम् च नः पुनः अन्तःपुरे विभूषार्थो मृग एष भविष्यति भरतस्यार्यपुत्रस्य श्वश्रूणाम् मम च प्रभो मृगरूपमिदम् दिव्यम् विस्मयम् जनयिष्यति जीवन् नयति तेभ्येति ग्रहणम् मृगसत्तमः तु भविष्यति निहतस्यास्य सत्वस्य जाम्बूनदमयत्वचि शष्पमृश्याम् विनीतायामिच्छाम्यहमुपासितुम् कामवृत्तमिदम् रौद्रम् स्त्रीणामसदृशम् मतम् मकुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम तेन काञ्चन रोम्नातु मणिप्रवरशृङ्गिणा तरुणादित्यवर्णेन नक्षत्रपथवर्चसा बभोव राघवस्यापि मनो विस्मयमागतम् इति सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् लोभितस्तेन रूपेण सीतया च प्रचोदितः उवाच राघवो हृष्टो वचः पश्य लक्ष्मणवैदेह्या वैदेह्या माम् रूपश्रेष्ठतया भविष्यति नवने चैत्ररथसंश्रये पुतः पृथिव्याम् सौमित्रे योऽस्य कश्चित् समो मृगः प्रतिलोमालोमाश्चरुचिरारोमराजयः शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् जिह्वाम् मुखान्निःसरन्तीम् मेघादिवशतः हृदा मसारगल्वर्कमुखः शङ्खमुक्तानि बोदरः कस्य नामानि रूप्योऽसौ न मनो लोभयेन्मृगः कस्य रूपमिदम् दृष्ट्वा जाम्बोनदमयप्रभम् नानारत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् माम् सहेतोरपि घ्नन्ति लक्ष्मणराजानो मृगयायाम् महावने धना नि्यवसायेन विचीयन्ते महावने धातवोऽपिविधाश्चापि मणिरत्नसुवर्णिनः तत्सारमखिलम् नृणा धनम् निचयवर्धनम् मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मणा अर्थीयेनार्थकृत्येन संव्रजत्य विचारयन् तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मणा एतस्य मृगरत्नस्य परार्ध्ये काञ्चन त्वचि उपवेक्ष्यति वैदेही मया सह सुमध्यमा न कादली न प्रियकी न प्रवेणी न चाविकी सदृशी स्पर्शे नेनेति मे मतिः एष चैव भावेतौ मृगौ दिव्यौ तारा मृगमही मृगौ यदि वायम् तथा यन्मा भवेद्वदसि लक्ष्मणा मायैषाराक्षसस्येति कर्तव्योऽस्य वधो मया एतेन हि नृशंसेन मारीचेना कृतात्मना मने विचरता पूर्वम् हिंसिता मुनिपुङ्गवाः उत्थाय बहवो नेन जनाधिपाः निहताः परमेश्वासास्तस्माद्वध्यस्त्वयम् मृगः पुरस्तादिह वातापिः परिभूय तपस्विनः उदरस्थोद्विजाह्नन्ति स्वगर्भोऽश्वतरीमिव स कदाचिच्चिराल्लोभा दाससादमहामुनिम् अगस्त्यम् तेजसा युक्तम् भक्ष्यस्तस्य बभूवः समुत्थाने च तद्रूपम् कर्तुकामम् समीक्ष्यतम् उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् त्वया विगण्यवातापे परिभूताश्च तेजसा जीवलोके द्विजश्रेष्ठास्तस्मादसि जराम् गतः तद्रक्षो न भवेदेव वातापिरिवलक्ष्मणा मद्विधम् योतिमन्येत धर्म नित्यम् जितेन्द्रियम् भवेद्धतोऽयम् वातापि इह त्वम् भव सन्नद्धो यन्त्रितो रक्षमैथिलीम् अस्यामायत्तमस्माकम् यत्कृत्यम् रघुनम् दना अहमेनम् वधिष्यामि ग्रहीष्याम्यथवा मृगम् यावद्गच्छामि सौमित्रे मृगमानयितुम् द्रुतम् पश्य लक्ष्मणवैदेह्या मृगत्वचि गताम् स्पृहाम् त्वचा प्रधानया एष भविष्यति अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया यावत्पृषतमेकेन सायकेन निहन्यहम् हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मणा प्रदक्षिणेनातिबलेन भक्षिणा जटायुषा बुद्धिमता च लक्ष्मणा भवा प्रमत्तः प्रतिगृह्य मैथिलीम् प्रतिक्षणम् सर्वत एव शङ्कितः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः